ॐ श्री परमात्मने नमः श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवतमहापुराणे सप्तमस्कन्धे प्रथमोऽध्यायः श्रुत उवाच श्रुत्वेतान् तापसा दिव्यां कथां राजा मुदान्वितः व्यासम् पप्रच्छ धर्मात्मा परीक्षेत सुतः जन्मे जयवाचे स्वामिन् सूर्यान्द्रयानां च राज्ञां वंशस्य विस्तरम् तथा सोमान्द्रयाणां च श्रुतुकामोऽस्मि सर्वथा कथया न सर्वज्ञ कथां पाप प्रणाशिनीं चरितं भूपतीनां च विस्तराद्वंशयोर्द्वयोः ैः सर्वे परा शक्ति भक्तायीति देवी भक्तस्य चरितं शृण्वन् कोऽपि विरक्तिभाक् इति राजषिणा पृष्टो व्यास सत्यवती सुतहे तं वाच मुनिश्रेष्ठः प्रसन्न वदनो दिशा माय महाराज विस्तराद् मम सोम सूर्यं दयां च तथा नेषां समुद्भवम् विष्णो नाभितरो चाद्वै ब्रह्म भूचतुरानः तपस्तमाराध्य महादेवीं सुदुर्ग मां तया दत्तवरोधात जगत् कर्तुं समुद्यतः नाशकन् मानुषीं दृष्टिं कर्तुं लोकपितामहः विचिन्त्य बहुधा चित्ते श्रुत्यर्थं चतुरानः चित्तारं जगामाशु रचितापि महात्मनः स च जय मानसान् सूत्रान् सप्तसङ्ख्यान् प्रजापतिः ीचि अङ्गिरात्रिश्च वसिष्ठे क्रतुः पुरश्चेत् विख्याता सप्त ते मानसा श्रुतः भवते। रोषात् मत्पन्नाभि उत्सङ्गत् दक्षङ्गुष्ठस्तेऽपि मानसहासनकदय वामङ्गुष्ठा दक्षपत्नी दाता सर्वाङ्गसुन्दरी वीरेणी नाम विख्याता पुराणेषु महीपते अशक्नेति नामनासा नाम्ना सा यस्यान्धातोथ नारदः दे। देवश्रीप्रवरकामन् ब्रह्मणो मानस्रुतः जन्मे देवाच अत्र मये संशयो ब्रह्मन् यदुक्तम् भवता वचः वीरीन्नाम्नारदो दातु दक्षादेति महात्पः कथं दक्षस्य पत्न्या तु वीरीन्नाम्नारदो मुनिः ततो हि ब्रह्मणः पुत्रो धर्मज्ञतापसोत्तमः विचेत्रमिदमाख्यातं भवता नारदस्य च दक्षाजन्मास्य भार्यायां तद्वदस्य सविस्तरम् पूर्व देह कथं मुक्तः शापाकस्य महात्मना नरदेन बहुन्येन कस्माज्जन्म कुटं मुने वासोवाच ब्रह्मणासो समादिष्टो दक्षश्रुष्ट्यथमादितः प्रयासोति सुभ्रूशम् पृथ्वी त्वस्थम्भुवाय चतु पञ्चसहस्राश्चनयामास वीर्यवान् दक्षप्रयापचे पुत्रान् वीरिण्यम् बलवत्तरान् दृष्ट्वा तान् नारदय पुत्रान् सर्वान् वर्धयिषुन् प्रियः उवाच प्रसन्वाचं देव चे काल नोदितः भुवप्रमाणं ज्ञात्वा स्रष्टु कामप्रजाकथम् लोकानां हास्यतां योऽयं गमिष्यथ न संशयहे पृथिव्या वै तु ज्ञात्वा कार्यस्तमुद्यमः कुतो सौ सिद्धिमायाति नान्यथेति विनिश्चयहे बालिशावत वै यद् ज्ञात्वा भुवत् तलं समुद्रिताः प्रिया कर्तुं कथं सिद्धिर्भविष्यति वाच नादेनैव उक्तास्ति हर्ष स्वादैव योगतः अन्यो नोचु स सा सम्यगे मुनिः वै ज्ञात्वा प्रमाणमूर्व सुखं सुरक्षा महे प्रया इति सञ्चिन्त्य सर्वे प्रयाताः प्रेषितुं भुवः जलं सर्वं परिज्ञातुं पचनान् नारदश्च प्राच्यां केचन गतः कामं दक्षिणस्यां तथा परे पते उत्तरस्यां तु कुतोत्साह समन्तपः दक्ष पुत्रान् गतान् दृष्ट्वा पीडित तु शुचाभृशम् अन्यानुत्पादयामास प्रयार्थं कृतनिश्चयः केऽपि पुत्र तत्र तत्र जताः कर्तुं प्रयासमुद्यमं सुतः मारुदः प्राहतान् दृष्ट्वा पूर्वं यद्वचनं मुनिः बालिषा बतयोऽयं वै यद यद् ज्ञात्वा भुव किले भरणं तु प्रया कर्तुम् प्रवृत्तः केन हेतुना श्रुत्वा वाक्यम् मत्वा सत्यं विमोहितः जग्मुः सर्वे यथा पूर्वं भ्रातरे चलिता तथा संस्कृतान् प्रस्थितान् दृष्ट्वा कोपसमन्वितः शापे नारदं गोपात् पुत्र शोकसमुद्भवात् दक्ष वासे नाशिता मे सुता यस्मात् तस्मान्नाशं वाप्नुहि पापे नानेन दुर्बोधे गर्भवासं ब्रजेतिजे, पुत्रो मे भव कामं तं यतो मे भ्रंशितः सुतः इति शक्तः रिन्ध्यां नारदो मुनिः षष्ठे भूर्योत्सृहत् कन्या वीरिध्यामिति न श्रुतम् शोकम् विहाय पुत्राणाम् दक्ष परमधर्मवित तासां त्रयोदश प्रादात् कश्यपाय महात्मने दशधर्माय सोमाय सप्तविंशति भूपते द्वे चैव भृगुभे चतस्रोरिश्चे मिने द्वे चैवाङ्गिरसे कन्ये तथैव वाङ्गिरसे पुनः तासां पुत्रा च पौत्रा च देवा च दानवा तथा दाता बलसमायुक्तः परस्परविरोधकाः रागद्वेषां विधा सर्वे परस्परविरोधिनः सर्वे मोहावृतः शूर यभवन् कतिमायिनः इति श्रीमद्देवी भागवते महापुराणे अष्टादशशताब्द्यां संहितायाम् सप्तमस्कन्धे सोम सूर्यवंश वर्णने दक्षप्राप्ते वर्णनं नाम प्रथमोऽध्यायः श्रीजगदम्बिकायार्पणमस्तु